अथ षड्विंशत्यधिकशततमः सर्गः बहूनि नाम वर्षाणि गतस्य लौकिकी प्रतिभाति एति जीवन्तमानम् दो नरम् वर्षशतादपि कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः स पृष्टो राजपुत्रेण दृश्याम् समुपवेशितः आचचक्षेरतः सर्वम् रामस्य चरितम् वने यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ यथा च पुत्रशोकेन राजा दशरथोऽ मृतः यथा दूतैस्त्वमानीतस्तूर्णम् राजगृहात्प्रभो त्वयायोध्याम् प्रविष्टेन यथा राज्यम् न चेप्सितम् चित्रकूटगिरिम् गत्वा राज्येनामित्रकर्षणः निमन्त्रितस्त्वया भ्राता धर्ममाचरता सता स्थितेन राज्ञो यथा राज्यम् विसर्जितम् आर्यस्य पादुके गृह्य यथासि पुनरागतः सर्वमेतन्महाबाहो यथावद्विदितम् तव त्वयि प्रति प्रयाते तु यद्वृत्तम् तन्निबोधमे अपयाते त्वय तदा समुद्भ्रान्तमृगद्विजम् परिद्योनमिवात्यर्थम् तद्वनम् समपद्यत तद्धस्ति मृदितम् घोरम् सिंहव्याघ्रमृगाकुलम् प्रविवेशाथ विजनम् समहद्दण्डकावनम् तेषाम् पुरस्ताद्बलवान् गच्छताम् गहने विनदन्सु महानादम् विराधः प्रत्यदृश्यत तमुत्क्षिप्य महानादमूर्ध्व बाहुमधोमुखम् निखाते प्रक्षिपन्ति स्म नदम् तमिव कुञ्जरम् तत्कृत्वा दुष्करम् कर्म भ्रातरौ रामलक्ष्मणौ सा याह्ने शरभङ्गस्य रम्यमाश्रममीयतुः या शरभङ्गे दिवम् प्राप्ते रामः अभिवाद्यमुनीन् सर्वान् जनस्थानमुपागमत् पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता ततो रामेण सन्दिष्टो लक्ष्मणः सहसोत्थितः प्रगृह्य खड्गम् चिच्छेदकर्णमासम् महाबलः चतुर्दश सहस्राणि भीमकर्मणा हता निवसता तत्र राघवेण महात्मना एकेन सह सङ्गम्य रामेण रणमूर्धनी अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः महाबला महावीर्यास्तपसो विघ्नकारिणः निहता राघवेणाजौ दण्डकारण्यवासिनः राक्षसाश्च विनिष्पिष्टाः खरश्च निहतोरणे दूषणम् चाग्रतो हत्वा त्रिशिरास्तदनन्तरम् ततस्तेनार्दिता बाला रावणम् समुपागता रावणानुचरो घोरो मारीचो लोभयामास वैदेहीम् भूत्वा मृगः साराममब्रवी दृष्ट्वा वैदेही गृह्यतामिति अयम् जगान सतम् जघानधावन्तम् शरेणानतपर्वणा अथ सौम्यदशग्रीवो मृगम् यातितु राघवे लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमम् तदा जग्राहतरसासीताम् ग्रहःखेरोहिणीमिव मिवा त्रातुकामं ततो युद्धे हत्वा गृध्रम् जटायुषम् प्रगृह्य सह सासीताम् जगामाशु ततस्त्वद्भुतसङ्काशास्थिताः पर्वतमूर्धनी सीताम् गृहीत्वा गच्छन्तम् वानराः पर्वतोपमाः ददृशर्विस्मिताकारा रावणम् राक्षसाधिपम् ततः शीघ्रतरम् गत्वा तद्विमानम् मनोजवम् आरुह्य सह वैदेह्य पुष्पकम् स महाबलः प्रविवेश रावणो राक्षसेश्वरः म् सुवर्णपरिष्कारे शुभे महति वेश्मनि प्रवेश्य मैथिलीम् तस्य तम् च नैरतपुङ्गवम् अचिन्तयन्ती वैदेही ह्यशोकवनिकाम् हत्वा तदावने निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रम् स गृध्रम् हतम् तदा दृष्ट्वा रामः प्रियतरं पितुः मार्गमानस्तु वैदेहीम् राघवः सह लक्ष्मणः गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान् आसेदतुर्महारण्ये कबन्धम् नाम राक्षसम् ततः कबन्धवचनाद्रामः सत्यपराक्रमः ऋष्यमोकगिरिम् गत्वा सुग्रीवेणसमागतः तयोः समागमः पूर्वम् प्रीत्या हार्दो व्यजायत भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः रामस्वबाहुवीर्येण स्वराज्यम् प्रत्यपादयत् वालिनम् समरेहत्वा महाकायम् महाबलम् सुग्रीवस्थापितो राज्ये सहितः सर्ववानरैः रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् आदिष्टा वा नरेन्द्रेण सुग्रीवेण महात्मना दशकोट्यः प्लवङ्गाणाम् सर्वाः प्रस्थापिता दिशः तेषाम् नो विप्रकृष्टानाम् विन्ध्ये पर्वतसत्तमे भृशम् शोकाभितप्तानाम् महान् कालोऽत्यवर्तत भ्राता तु गृर्ध्रराजस्य सम्पातिर्नामवीर्यवान् समाख्याति स्म वसतीम् सीताम् रावणमन्दिरे सोऽहम् दुःखपरीतानाम् दुःखम् तज्ज्ञातिनाम् नुदन् आत्मवीर्यम् समास्थाय योजनानाम् शतम् प्लुतः तत्राहमेका मद्राक्षमशोकवनिकाम् गता कौशेयवस्त्राम् मलिनाम् निरानन्दाम् दृढव्रता तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिता अभिज्ञानम् मया दत्तम् रामनामाङ्गुलीयकम् अभिज्ञानम् मणिम् लब्ध्वा चरितार्थोऽहमागतः मया च पुनरागम्य रामस्याक्लिष्टकर्मणः अभिज्ञानम् मया दत्तमर्चिष्मान् स महामणिः श्रुत्वा ताम् मैथिलीम् रामस्त्वा शशंसे च जीवितम् जीविताम् जिघाम् स्वरिव ते सर्वान् लोकान् विभावसुः ततः गृहस्तमवधीर्णीलः कुम्भकर्णम् तु राघवः लक्ष्मणो रावणसुतम् स्वयम् रामस्तु रावणम् सशक्रेण समागम्य यमेन वरुणेन च महेश्वरः तथा दशरथेन च तैश्च दत्तवरः श्रीमान् सुरऋषिभिश्च काकुत्स्थो वरान् लेभे परम् तपः स तु प्रीत्या वानरैश्च समागतैः पुष्पकेण विमानेन किष्किम् धामभ्युपागमत् ताम् गङ्गाम् पुनरासाद्य वसन्तम् मुनिसन्निधौ अविघ्नम् पुष्ययोगेण श्वो रामम् द्रष्टुमर्हसि ततः स वाक्यैर्मधुरैर्हनूमतो निशम्य हृष्टो मनोरथः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये